हरि ओं श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमध्यात्मरामायणे किच् किन्धाकाण्डे सप्तमः स्वर्गः श्रीमादेव उवाच अथ तत्र समासीना वृक्षचण्डे चु वानरः चिन्तयन्तो विमोह्यन्त सीतामार्गण कर्षितः तत्र वाचित् वानरान् वानर शभये भ्रमतां गह्वरेऽस्माकम् मासो नूनं गतो भवेत् सीतानाधिगतास्माभिः न कृतम् राजशासनम् यदि गच्छाम किष्किन्धाम् सुग्री वोत्मानेष्यति विशेषतः शत्रुसुतम् माम् मिशान्य नेष्यति मयि हम् रामेण रक्षितः इदानीम् रामकार्यम् मे न कृतं तन्मिषम् भवे तस्य मधन नूनम् सुग्रीवस्य दुरात्मनः मातृकल्पाम् भ्रातृभार्याम् पापात्मानुभवत्य स न गच्छेयम्बाश्वम् तस्य वा नरपुङ्गवः त्यक्ष्यामि जीवितम् चत्र मृत्युना इत्यश्रुनयनम् केचित् दृष्ट्वा वा नृपुङ्गवः व्यथिता साश्रुनयना युवराज मथा ब्रुवन् किमर्थम् तव शोकोऽत्र वयम् प्राणरक्षकः भवामो निवसामोऽत्र गुहायाम् भयवर्जितः सर्वसौभाग्यसहितम् पुरम् देव पुरोपमम् शनैः परस्परम् वदसामारुतात्मजः श्रुत्वाङ्गदम् समालिङ्गम् प्रोवाच न य कोविद विचार्यते किमर्थं दुर्विचारो न युज्यते राज्ञोऽत्यन्तप्रियस्वं हि तारापुत्रोऽति वल्लभ रामस्य लक्ष्मणाप्रीति त्वयि प्रवर्धते अटो न तव राज्ञो विशेषतः अहं तव हि तेतौ वत्स नान्यम् विचारय गुहा वासश्च निर्भेद्य इत्युक्तम् वानरस्तूतये तदेतद्रामबाणानाम् अभेद्यम् किम् जगत्त्रये ये त्वाम् दुर्बोधयन्त्येते वानरा वानरसभ पुत्रदारादिकम् कथं स्थास्यन्ति ते अन्यद् गुह्यतमम् वक्षे रहस्यं शृणुते मे सुत रामो न मानुषो देव साक्षात् नारायणो व्ययः सीता भगवती माया जनसम्मोहकारिणी लक्ष्मणो भुवनाधार साक्षात् शेषः फणीश्वरः ब्रह्मणा प्रार्थिता सर्वे विनाशने माया मानुष भावेन जाता लोकैकरक्षकः वयञ्च पाषदाः सर्वे विष्णोर्वैकुण्ठवासिनः मनुष्यभावमापन्ने स्वेच्छया परमात्मने वयं वा निररूपेण जातास्तस्यैव मायया वयम् तु तपसा पूर्वम् आराध्य जगताम् पतिं तेनैवानुगृहीतास्मै पार्श्वदत्तम् उपागतः इदानीम् अपि तस्यैव सेवाम् मायय, मायया पुनर्वैकुण्ठमासाद्य सुखम् स्थास्यामहे वयम् इत्यङ्गनमथाश्वास्य गता विन्यम् आचलम् विचिन्वन्तोऽ शनकै जानकीम् दक्षिणाम्बुधे तीरे महेन्द्राख्यागिरे पवित्रम् पादमाययुः दृष्ट्वा समुद्रम् अगाधं भयवर्धनम् वानराभय सं किं कुर्म इति वादिनः निषे सर्वे चिन्ता समन्विताः मन्त्रया मा सुरन्योन्यम् अङ्गदाद्या महाबल भ्रमतो मे मासो गतोत्रैव गुहान्तरे न सृष्टो रावणो वाद्य सीता सुग्रीव तीक्ष्णदा दण्डोऽस्मान् निहन्त्येव न संशयः सुग्रीव वदतु श्रेय्यप्रायोपवेशनम् इति निश्चेत्य तत्रैव दर्भान् आसीत् यत् सर्वतः उपाविवेशुस्ते सर्वे मरणे कृतनिश्चयः एतस्मिन्नन्तरे तत्र महेन्द्राद्रिगुहान्तरात् निर्गत्य शनके आगत् गुरुध्रे पर्वतसन्निभे दृष्ट्वा पायोपवेशेन स्थितान् वानरपुङ्गवान् उवाच शनक गुरुध्रे प्राप्तो भक्षोद्यमे बहु एकैकषक्रमान् -एक सर्वान् भक्षयामि दिने दिने श्रुत्वा तद् गुरुध्रवचनम् वानर भीतमानसः भक्षयिष्यति सर्वान् असौ गुरुध्रो सुग्रीवित नृतम स्वात्म प्राप्ता, ग्छा मोय साधनं, अहो जटाधर्मात्माथ मृत सुधी मोक्ष दुरावापम योगी नप्यरिंदम संति तक्यम श्रुत्वा वा नरभाषितम् के वा यूयम् मम भ्रातु कर्णपीयू इति नाम मध्ये व्यहरन्तः परस्परम् उच्यताम् वो भयम् मा भून् मत्त प्रवेगसप्तमः तम्बुवाचाङ्गद श्रीमान् उत्थितो गुरुध्रन्निधो रामो दाश्री लक्ष्मणेन समन्वितः सीतया भार्यया सार्धम् विचारे महवने तस्य सीता हृता साध्वी रावणेन गुरात्मना म्रव्याम् निर्गते रामे लक्ष्मणे च हृता बलात् राम रामेति क्रोशन्ति श्रुत्वा गुरुध्र प्रतापवान् यचायुर्नाम पक्षीन्द्रो युद्धम् कृत्वा सुदारुणम् रावणेन हतो वीरो राघवार्थम् महाबलम् रामेण दग्धो रामस्य सायुज्यम् मजमक्षणात् राम सुग्रीवमासाद्य सख्यम् कृत्वा अग्निसाक्षिकम् सुग्रीव चोदितो हत्वा वाविनम् सुदुरासदम् राज्यम् दधो वा नराणाम् सुग्रीवाय महाबलः सुग्रीव प्रेषयामास सीताया अस्मान् वा नरमु वृन्दान् वै महासत्त्वान् महाबलः माता दर्वाङ्वर्तधम् नो चेत् इत्याज्ञया भ्रमन्तोऽस्मिन् वने गौहर मध्यगः मासो न जानीमः श्रीताम्बा रावणं च वा मत्तुं प्रायोपविता स्म तीरे यदि जानाति हे पक्षिन् सीतां कथय न शुभाम् अङ्गदस्यैव च श्रुत्वा सम्पाद्य भृष्टमानसहे उवाच मत् प्रियो भ्राता जटायु प्रभेश्वरः बहुवर्षसहस्रान्ते भ्रातुर्वार्ता श्रुता मया वाक्सायं करिष्येयं भवतां प्रभगेश्वरः भ्रातु सलिलदानाय नयद्धं मां पश्चात् सर्वं शुभं वक्ष्ये भवताम् कार्य सिद्धये तथेति निन्युतेरम् समुद्रस्य विहङ्गमम् सोऽपि तत्सलिले स्नाता भ्रातुर्दत्त्वा जलाञ्जलिम् पुनस्वस्थानमासाद्य स्थितो नेतो हरीश्वरे सम्पाति कथयामास वानरान् परिहर्षयन् लङ्का नाम त्रिकूट गिरिमूर्धनी तत्र शोकवने सीता भी सुरक्षिता समुद्र मध्ये सालङ्का शतयो जन दूरतः दृश्यते मेन सन्देह सीता च परिदृश्यते वृद्धत्वा दूरदृष्टिर्मे नात्र संशयितुं क्षमम् शतयो जन समुद्रं वयस्तुलङ्घयेत् स एव जानकीं दृष्ट्वा पुनरायान्ते ध्रुवम् अहम् एव दुरात्मानम् रावणम् हन्तु मुत्सहे दातुरन्तारमेकाकी किन्तु पक्षविवर्जितः यत् अधम् अतियत्नेन लङ्घितुम् सरितां ततो हन्ता रिभु रावणं राक्षसाधिपम् उल्लङ्घ्य सिन्धुं च संयोजनयतं लङ्कां प्रविश्य कन्यकां दृष्टा समाभाष्य च समर्थ पुनरे तर्तुम् समर्थमो विचर्यताम् इति मदध्यात्मनारामायणे उमामि श्रुतंवादे किष्किन्धाकाण्डे सप्तमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु